गणेशपुराणम् उपासनाखण्डम् अध्यायं सिक्स्टि ब्रह्मोवाच अङ्कारकचदुध्यास्तु महिमानं महीपदे शृणुष्वहितो भूत्वा कथयामि समासदः राजन राजन् भारद्वाजो महामुनिः वेदवेदाङ्गवित्प्राज्ञः सर्वशास्त्रविशारदः अग्निहोत्ररतो नित्यं शिष्याध्ययनतत्परः नदीतिरगतस्तिष्ठन्ननुष्ठानरतोदो मुनिः एकस्मिन्नेव समये दृष्टा तेनाप्सरो वरा ताम दृष्ट्वा चकमे भोक्तुं भारद्वाजो महामुनिः अकस्मात् कामिनीं दृष्ट्वा कामासक्तो भवन्मुनिः कामभाणाभिभूदस्स निपपादमहीतले अधिविह्वलगात्रस्य तस्य रेदप्रचस्कले प्रविष्टं तस्य तद्रेदपृथिवी बिलमध्यदः तदयेकुमारो भूजपा कुसुमसन्निभः तं धरित्री स्नेहवशात् पालयामास सादरं जनुस्वं तेन धन्यं सा मनुते सप्तवर्षस्तां पप्र जननीं निजाम् मयि लोहितिमाकस्मान्मानुषं देहमास्ति ते कश्च मे जनको मादस्तन्ममाचक्ष्वसाम्प्रतम् धरण्युवाच भारद्वाज मुनेरृदस्खलिदं मयि सङ्गतम् तदो जातोऽसि रेपुत्रवर्धितोऽसि मया शुभं स उवाच तर्हितं मे मुनिं माददर्शयस्वतपोनिधिं ब्रह्मोवाच तमादाय तदा देवी भारद्वाजं जगामकुः उवाच प्रणिपत्यैनं तद्वीर्यप्रसवं सुदं वर्धितं तं पुरोद्धार्यस्वीकुरुष्व मुनेधुना तदाज्ञया ययौ स्वधाम। रुचिरं स्वधामरुचिरं तदा भारद्वाज लब्ध्वा मुमोदे चालिलिङ्गतम् आख्रा शिउत्संगे स्थापयास तुहूर्ते शुभे लग्ने चकारोपन मुनि वेदशास्त्रुप्य गणेश मनु शुभम उवाच कुष गणेश प्रीत चिं सन्तुष्टो दास्यदे कामान् सर्वां स्तव मनोगदान् ततः स नर्मदातीरे पद्मासनगदो मुनिः संनियम्येन्द्रियाण्या शुद्ध्यायन् हे रम्भमन्तरा जापपरमं मन्त्रं वायुभक्षो भृशं कृशः एवं वर्षसहस्रं स तपस्तेपे सुदारुणं माक कृष्णचतुर्ध्यान्दमुदये शशिनो मले दर्शयामासरूपं स्वं गणनाधोधदिग्भुजं दिव्याम्बरं बालचन्द्रं लसत्करं। चारुशुण्ठं लसद्दन्तं शूर्पकर्णं सकुण्डलम् सूर्यकोटिप्रदीकाश्यं नानालङ्कारमण्डितम् ददर्शरूपम् देवस्य सबालपुरतः स्थितं तुष्टाव जगदीश्वरम् भौम उवाच नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे सुरासुराणामीशाय सर्वशक्त्युपबर्हिणे निरामयाय नित्याय निर्गुणाय गुणचिदे नमो ब्रह्मविदां श्रेष्ठस्थितिसंहारकारिणे नमस्ते नमस्त्रै जगदाधारनमस्त्रैलोक्यपालक ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे लक्ष्यालक्ष्यस्वरूपाय दुर्लक्षणभिधे नमः नमः श्रीगणनाधाय परेशाय नमो नमः युधितुतः प्रसन्नात्मा परमात्मा गजाननः उवाच श्लक्ष्णया वाच बालकं सम्प्रहर्षयन् गजानन उवाच तवोऽग्रतपसातुष्टो भक्त्या स्तुत्या नयापि च भावेपि धैर्या च ददामि वाञ्छितान् वरान् एवमुक्तो भूमिपुत्रो वच उचे गजाननं भौम उवाच धन्या दृष्टिर्जननमपि मे दर्शनाच्च सुरेश धन्यं ज्ञानं कुलमपि विभो भू स शैलाद्यधन्या धन्यम् चैदत्सकलमपि तपो येन दृष्टो किलेशो धन्यावाणी वसतिरपि यया मूठभावाद मूढभावाद यदि तुष्टोऽसि देवेश स्वर्गे भवतु मे स्थितिः अमृतं पातुमिच्छामि सह गजानन कल्याणकारि नामख्यादिमे तु जगत्त्रये च दुद्ध्यां ते पुण्यप्रदं विभो अतः सा पुण्यदा नित्यं सर्वसङ्कष्टकारिणी कामदाव्रतकरुतॄणां त्वत्प्रसादात् सदास्तु गणेश उवाच अमृतं पश्यसे सम्यग्देवैः सह धरा सुत मङ्गलेति च नाम्ना लोकेख्यादिं गमिष्यसि अङ्गारकेदिरक्तत्वाद्धसुमत्या यधः सुतः अङ्कारकचतुर्थीं ये करिष्यन्ति नरा भुवि तेषामब्धसमं पुण्यं सङ्कष्टिव्रतसम्भवं न विघ्नदा सर्वकार्ये भविष्यति न संशयः नगरे राजा भविष्यसि व्रतानामुत्तमं यस्मात् कृतं ते व्रतमुत्तमं यस्य सङ्कीर्तनान् मर्त्य सर्वान् कामान् अवाप्नुयात् ब्रह्मोवाच यदि दत्त्वा वरो देवः पिदधे द्विरदाननः ततस्तु मङ्गले देवं स्थापयामासभकृदः शुण्ठामुखं दशभुजं सर्वावयवसुन्दरं प्रासादं कारयामास गजाननमुदा वहं संज्ञा मङ्गलमूर्तिरिति देवदेवस्य सोऽकरोत् तदोभवत्कामदादृक्षेत्रं सर्वजनस्य तत् अनुष्ठानात् पूजनाच्च दर्शनात् सर्वमोक्षदम् तदो विनायको देवो विमान विमानवरमुत्तमम् प्रेषयामासस्वगणैर्भौममानेदुमन्दिकम् ते गत्वा तेन देहेन तं भौममानयन् बलाद गणेशस्यान्तिकं राज्यं तदद्भुतमिवा भवत् तदो भौमो भवध्यातस्त्रैलोक्ये सचराचरे यदो भौमेन सङ्कष्टचतुर्थी भौमसंयुधा कृदाप्राप्तं च स्वर्गं चामृदपानं सुरैः सह अधश्चाङ्गारकयुता चतुर्थी प्रथिता भुवि चिन्तितार्थप्रधानेन चिन्तामणिरिदिप्रधा प्रयादो मङ्गलमूर्तिस्सर्वानुग्रहकारकः पारिणें रातु नगरात् पश्चिमे प्रदिदो भवद चिन्तामणिरिदिक् ्यादः सर्वविघ्ननिवारणः अधुना सिद्धगन्धर्वैपूज्यते स विधूयते ददाति वाञ्छितानर्थान् उपासना इति श्रीगणेशपुराणे उपासनाखण्डे अङ्गारकचतुर्थीव्रतोपाख्याने ष्टमय ओ